अम्बतिमूणावत् दशकम् धेनुकासुरवदम् अतीत्य बाल्यम् जगदाम् पदे त्वम् उपेक्षवत्सावनमुत्सवेन प्रवर्तता गोकणपालनायाम् उपक्रमस्यानुगुणैव मरुत्पुरा दीश तव प्रवृत्ते गोत्रापरित्राणकृते वतीर्णस्तदेव देवारभतास्तदाय तदापि रामेण समम् वनान्ते मनः त्वम् उत्तालताली निवहे त्वदुक्त्या बलेन दूते बलेन दोर्प्याम् मृदुकरश्चाप्यपतत् पुरस्तात् बलोत्करो देनुक दानवोऽपिम् समुद्यतो दैनुकपालनेहम् कथम् वतम् दैनुकमद्य कुर्वे इतीव मत्वा द्रुणा द्रुणा सुरौगयोदारमजीगतस्त्वम् तदीय प्रद्यान विजम्बुकत्वेन उपागतानग्रज संयुतस्त्वम् जम्बूफलानीव तदा निरास्त तालेषु केलन् भगवन्निरास्त विनिघ्नति त्वयि यद जम्बुकौघम् स नाम गत्वाद्वरुणस्तदानि बयाकुलो जम्बुगनामदेयम् श्रुति प्रसिद्धम् यदि मन्ये तवावतारस्य फलम् मुरारे सज्ञातमध्येति सुरैर्नुतस्त्वम् सत्यम् फलम् जातमिहेतिहासि बालैः समम् तालबलान्यभुङ्क्ता मधुद्रवशृन्ति बृहन्ति तानि फलानि मेदो बरवृन्ति भुक्त्वा तृप्तैश्च तृप्तैर्भवनम् पलौगम् बहद्भिराग खलु हतो हतो देनुग इत्युपेत्य फलान्यतद्भिर्मराणि लोकै जयेति जीवेति नुतो विभो त्वम् कृष्ण जय कृष्ण जय कृष्ण जय कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण जय